मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं वन् चतुर्थीतपोवर्णनं श्रीगणेशाय नमः शौनक उवाच त्वया सुदमःप्राज्ञ महोदरचरित्रकं कथितं शान्दिदं मोहनाशकं संश्रुतं मया तथा तृप्तिं नयाम्येव पायं पायं सुधामिव नानेन सदृशं किञ्चिच्छान्दितं विद्यते द्विज अदो गजाननस्यापि चरित्रं वदविस्तराद सर्वज्ञस्त्वमहाभाग मदोऽस्माभिर्न संशयः मुद्गलस्य च दक्षस्य संवादं वदमानद किं पृष्ठम् ब्रह्मपुत्रेण दक्षेणाग्रे सुबुद्धिना सूत उवाच शृणुभार्गवविप्रेन्द्र महाज्ञानकरम् प्रभो गजाननस्य माहात्म्यं कथयामि यथा श्रुतं श्रुत्वा महोदराख्यानं नानाख्यानसमन्वितम् मोहनाशकरं दक्षो हर्षितो ह्यभवन्मुने मुद्गलं पुनरप्याह योगीन्द्रं वेदपारगं विनयेन समायुक्तो गणेशज्ञानलालसः दक्ष उवाच महोदरस्य माहात्म्यं श्रुतं भक्ति युधेन भोः तेनानन्दसमायुक्तकृतोऽहं योगिना योगिनात्वया अधुना वद विप्रेष गजाननचरित्रकं कीदृश्योवतरद्देव कीदृश्यं ब्रह्मतत्र च किमर्थं देहि धारीश बभूव मुनिसत्तम किं कर्म किं गुणज्ञश्च वद सर्वं महामदे पूर्वपुण्यप्रभावेण सङ्गदिस्ते प्रजायते धन्योऽकं सर्वभावेन शृणोमि कथां शुभां सूद उवाच दक्षेण महायोगी स बुद्धिशालिना सम्प्रत्युवाच भावज्ञो गाणपत्यपरायणः मुद्गल उवाच शृणुदक्षमहाभागधन्योऽस्यत्र न संशयः कथां वर्धयसि प्राज्ञा गणेशीं यो गदाम् तव भावेन सन्तुष्टो वदामि सकलं प्रभो प्रजाननस्य माहात्म्यं योगशान्तिपदप्रदं सांख्यं ब्रह्म विदेहाख्यं कथितं योगिभिः परं तदेव गजवक्त्रं वै जानीहि त्वं प्रजापते बिन्दुब्रह्मात्मको देहः सोऽहं वक्त्रं प्रकीर्तितं तयोरभेदको बोधो बभावेव देहवान् त्रिविधेषु देवो तथापि तद्विवर्जितः विदेहो गजवक्त्रश्च शोभदसाङ्ख्यधारकः बोधत्यागे महाभाग कस्सङ्ख्यां कुरु देवद ब्रह्मणां तेन साङ्ख्यं तद्ब्रह्म वेदे प्रकाशितं लोभासुरविनाशाय प्रकडो भूद्गजाननः देवैर्विप्रायः प्रजानाधप्रार्थितो भक्तिलालसः चतुर्ध्यां मध्यगे भानौ जपधारी समागतः सा तिथिः परमा तस्य प्रीतिदा सं वै वा सुद उवाच इति श्रुत्वा वचो रम्यं दक्षो हृष्ठमना मुने मुद्गलं विप्रं चतुर्थी ज्ञानसिद्धये दक्ष उवाच का चतुर्थीतिथिप्रोक्ता शुक्ला कृष्णा वदप्रभो गणनाथप्रियात्यन्तं बभूव कथमेव सा पुनः पुनस्त्वया ब्रह्मन् कथितं तद्व्रतं शुभम् अधो ब्रूहि चतुर्ध्यास्त्वं माहात्म्यं सकलं परं दक्षस्य वचनं श्रुत्वा हर्षयुक्तो महामुनिः मुद्गलस्तमधोवाच चतुर्थी सम्भवां कथाम् मुद्गल उवाच सङ्क्षेपेण प्रवक्ष्यामि चतुर्ध्याश्च चरित्रकं गणनाथप्रियंपूर्णं ज्ञास्यसि त्वं प्रजापते पुरा सृष्टिं च सृष्ट्वा वै ब्रह्मा लोकपितामहः स्थितानां तत्र जन्तूनां कालार्थं स दे मनः नानाकार्यप्रसिद्ध्यर्थं सञ्चिन्त्य गणपं हृदि अभवध्यानमास्ताय संस्थितश्चिन्तयान्विदः ततस्तस्य शरीराद्वै निःसृता प्रकृतिः महामाया तिथीनां सा महा जननी कामरूपिणी चतुष्पदां तथा दक्ष चतुर्हस्तां सुशोभनां चतुर्मुखयुतं वीक्ष्य हर्षितोऽभूत् प्रजापतिः ततः सातं नमस्कृत्य तुष्टाव जगदीश्वरं नानास्तोत्रय प्रसाद्यैनमुवाच कननिस्वना प्रकृतिरुवाच तवाङ्गनिःसृदां माम्त्वं त्वं विद्भिब्रह्माण्डनायक आज्ञां कुरु विधर्मां च कुर्वेशम् भावयन्ध्रिता स्थानं देहि तथा भक्ष्यं नाना भोगाधिकं प्रभो मह्यं देव दयासिन्धो नमस्ते परमेश्वरा तस्यास्तद्वचनं श्रुत्वा तां जगाद प्रजापतिः सृष्टिं गणेशं सञ्चिन्त्य विचित्राम् कुरुमानदे स तस्यै गणनाथस्य ददौ मन्त्रं षडक्षरं सविधिं स नमस्कृत्य ययौ वनमादराद तदाप तप उग्रं नासाग्र नयनासदी ना सदी गणेशं हृदि सन्ध्याय जजापमन्त्रमुत्तमं प्रजापदे गदे वर्षसहस्रे दु गजाननः आयय्यौ ता महाभागामगधक्तवत्सलः गणेश उवाच परान् महाभागे बहून् मनसि वाञ्छितान् निराहारेण सन्तुष्टो ददामि तपःसा च ते तस्य तद्वचनम् श्रुत्वा हर्षिदा प्रणनामतम् गजाननम् प्रसम्पूज्य तुष्टावच कृताञ्जलिः प्रकृतिरुवाच नमस्ते विघ्ननादाय गणेशाय परात्मने अनाधाय विशेषेण सर्वे नम नमो मूषकवाहाय मूषकध्वजिने नम स्वानंदप्यं गण पद नम सिबुद्धि प्रदा चुद्धिबुद्धि विहारिणे योगेशा सदा शांति प्रदा योगिने नम सर्वादये सदा सर्वपूज्याय भक्तपालका ज्येष्ठराजाय ज्येष्ठानां पदये नमो नमः ब्रह्मणे ब्रह्मदात्रे वै ब्रह्मणां पदये नमः सिद्धेश्वराय देवानां दैत्यानां पदये नमः चतुर्भुजाय हेरम्ब परशोर्द्धारकाय अङ्गुष्यन्धारिणे तुभ्यं निरङ्गुष नमो नमः रजसासृष्टिकर्त्रे दे पालने सात्त्विकाय ते तामसाय महाहन्द्रे गुणेशाय नमो नमः स्थावराय चरायैव चराचरमयाय ते चराचरविहीनाय बोधाय च नमो नमः चतुर्विधस्वरूपाय चतुर्विधसुखप्रद चतुस्सुखस्वरूपाय स्वसंवेद्याय ते नमः विनायकाय सर्वेषां नायकाय नमो नमः गजाननाय देवाय देवदेवेश ते नमः किं स्तौमि त्वां गणाध्यक्षब्रह्मणस्परिरूपिणं यं स्तोदुम् न समर्थाश्च योगिनो वेदमुख्यकाः तव दर्शनबोधेन तथापि संस्तुतो मया तेन तुष्टो भव स्वामिन्भक्त्रिं देहि दृढां त्वयि यदि स्तुत्वा गणेशानं दण्डवत्प्रणनामतं तामुद्घाप्यगणाधीश उवाच व्रतमातरम् गणेश उवाच वरं वृणुमहाभागे यं यमिच्छ शिशोभने तं तं दास्यामि सुप्रीदो भक्रिया स्तोत्रेण तोषितः त्वया कृतमिदं स्तोत्रम् सर्वसिद्धिप्रदं भवेद यः पठे तृणु या देवि ईप्सितं लभते नरः एककालं द्विकालं वा त्रिकालं लभदे सदा अव्रती व्रद साफल्यं पठनान्नात्र संशयः ब्रुवन्तं गणनाथं सोवाच गम्भीरनिस्वना देवी प्रणम्यभावेन साश्रुनेत्रा प्रजापदे देव्युवाच वरदोऽसिगणाधीश तदा देहि त्वयि स्थिरां भक्तिं मे च तथा कार्ये सामर्थ्यं करुणानिधे दे। सृष्टिसर्जनसामर्थ्यं देहिनाथ नमोऽस्तु दे। सदा तव प्रियत्वं वियोगो नचते च ते भवत ॐमित्युक्त्वा गणाधीशो जगाद वददां वरः चतुर्विधप्रदा देवि प्रिया मम भविष्यसि तिथीनां मातृभावेन चतुर्थी संस्तिदा भव वमभागे सदा कृष्णा शुक्ला दक्षिणभाके मम जन्मतिथित्वं वै भविष्यसि न संशयः सदा तव व्रदे संस्थान् पालयामि विशेषतः मदीयव्रतजापुण्या तिथिस्त्वं च भविष्यसि व्रतेषु नैवदायकं नैव दायकं कुत्र वर्तते एवमुक्त्वा गणेशानोऽन्तर्धानं प्रचकारः व्रतमादा प्रजानादा भवत्तत्रैव संस्थिता ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थी तपोवर्णनं नाम प्रथमोऽध्यायः ओ